श्रीहरे नमः अतत्रयो त्रयोविंशोऽध्यायः गोपावूचो राम राम महावीर्य कृष्णदुष्टनिबर्हणा एषा वै बात तेक्षु तक् तच्छान्तिं कर्तुमर्हतः श्रीसुख इति विज्ञापितो गोपैर्भगवान् देवकीसुतः भक्ताया विप्रभार्या यः प्रसीदन् इदमब्रवीत प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः सत्रमाङ्गिरसं नाम ह्यासते स्वर्गकाम्ययां तत्र गद्वौ धनं गोपा याचदास्मद्विसर्जिताः कीर्तयन्तो भगवत आर्यस्य मम चाभिता इत्यादिष्ठा भगवता इत्या ग याचन्तते तता कृताञ्जलिपुटा विप्रा दण्डवत्पतिता भुवि हे भूमि देवा शृणुतः कृष्णस्याधेसकारिणः प्राप्ताञ्जानीतभद्रं वो गोपान्नो रामचोदितान् ताश्चारयन्ताव विधूरवोदनम् रामाश्च्युतौ लक्षतो बुभुक्षितौ तयोर्द्विजावोधनमर्तिनोर्यतिश्रद्धा च यो यच्छतधर्मवित्तमाः दीक्षाया पशुसंस्थाया सौत्रामण्याश्च सत्तमाः अन्यत्प्रदीक्षितस्यापि नान्नमश्नन् हि दुष्यते इति ते शृण्वन्तोऽपि न शुश्रुभुः शूद्रा सा भूरिकर्माणो बालिसा वृद्धमानिनः देशकालः पृथक् तं ब्रह्मपरमं साक्षाद्भगवन्नमधोक्षजं मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे न ते यधोमिते प्रोचुर्ननेति च परन्तप तदुपाकर्ण्य भगवान् ब्रह्मस्त्य जगतीश्वरः व्याजहार पुनर्गोपान् दर्शयन् लौकिकीं गतिं मान्यापयत पत्नीभ्यः सशङ्कर्षणमागतं दास्यन्ति काममन्नं वस्निग्धा मयुक्षिता धिया गत्वा तपत्नीशालायां दृष्ट्वा सीनास्वलङ्कृताः नत्वा द्विजसतिर्गोपा प्रसृता इदमब्रुवन् नमो वो इतो विदूरे चरता कृष्णे नेहेशिता वयं गाश्चारयन् श्रुत्वा नित्यं तद्दर्शनोत्सुकाः तत्कदा क्षिप्तमनसो बभूवोर्जातसम्भ्रमाः चतुर्वितं बहुगुणमन्नम् आधाय भाजनैः अभिश्रुप्रियं सर्व निषिध्यमानाः पथिभिर्भ्रातृभिर्भन्तुभिः सुतैः भगवती उत्तमश्लोके दीर्घश्रुतधृतासयाः यमुनोपवने शोकनवपल्लवमण्डिते विचरन्तं वृतं गोपैशाग्रजं दतृषु स्त्रियः श्यामं हिरण्यपरिधिं वनमाल्यपर्हधातु प्रवाळनटवेषम् विन्यस्तहस्तमितरेण दुनानमब्जम् कर्णोत्पलालकपोलमुकाब्जहासं प्रायश्रुतप्रियतमोदयकर्णपूरैः यस्मिन् निमग्नमनसस्तमधाक्षिरन्ध्रैः अन्तःप्रवेशुचिरं प्राज्ञं यथापि मतयो त प्राप्ता आत्मदिदृक्षया विज्ञाया किल दृग् स्वागतं वो महाभागा आश्यतां करवाम किं प्राप्ता उपपन्नमिदं शिवः नन्वद्धामयि कुर्वन्ति कुशलास्वार्थदर्शनाः अहैतु व्यवहितां भक्तिमात्मप्रिये यथा प्राणबुद्धिमनस्वात्मधारापत्यधनाधयः यत्सम्पर्कात् प्रिया आसन् ततः कोन्व परः तत्याददेव यजनं पतयो वो स्वसत्रं पारयिष्यन्ती युष्माभिर्गृहमेतिनः पद्यवूचू मैवं विभोहर्ति भवान् गतितुं सत्यं कुरुष्व निगमं तव प्राप्तावयं प्राप्ता वयं तुलसिधामपथावसृष्टं निवोटं अधिलङ्क्य समस्तबन्धून् गृह्णन्ति नोनय पतय पितरौ न प्रातृभन्तु सुहृदः कुत नो नान्या श्रीभगवानुवाच पतयो नाप्यसूयेरन्पितृभ्रातृः सुधादयः लोकश्च वोमयोपेता देवा अप्यनुमन्वते न प्रीतयेनुरागाय ह्यस् तन्मनोमयि युञ्जाना अचिरान् माम् अवाप्यत येषु यज्ञवाटं पुनर्गताः तेषां न सूयवस्वाभिः स्त्रीभिस्सत्रमपारयन् तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतं हृदोपगुक्य देहं कर्मानुबन्धनम् भगवानपि गोविन्दस्तेनैवान्नेन गोपकान् चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः एवं लीलानरवपुर्नृलोकम् अनुशीलयन् रेमे गो गोप गोपीनां रमयन् रूपवाकृतैः अतानुस्मृत्य विप्रास्ते अन्वधप्यन् कृतागसः यद्विश्वेश्वरयोर्याज्ञामहन्मनृविडम्भयोः दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् आत्मानं च दयाहीनमनुतप्ता व्यगर्हयन् दिग्जन्मनस्त्रिव्र विद्यां दिक्व्रतं दिक् बहुज्ञतां दिक्कुलं दिक्क्रिया दाक्षं विमुखो ये दोक्षजे नूनं भगवतो मायायोगिनामपि मोहिनी यद्वयं गुरवो नृणां स्वार्थे मुह्यामहे द्वि जाहान् अहो पश्यत नारीणामपि कृष्णे जगद्गुरो दुरन्तभावं यो विद्यन्मृत्युपाशान् गृहाभितान् नाशां द्विजातिसंस्कारो न ना निवासो गुरावपि न तपो नात्ममीमांसा न शौचं न क्रियाशुभान् अतापि हि उत्तमश्लोके कृष्णे योगेश्वरेश्वरे भक्तिर्दृटा न च अस्मा संस्कारादिमतामपि ननु वार्तविमूढानां प्रमत्तानां गृहेहयाम् अहो न स्मारयामास गोपवाक्यैः सतां गतिः किमस्माभिः ईशस्यैतत् विडम्बनं हित्वान्यान् भजतेयं आत्मदोषापवर्गेण तत्याज्ञाज्जनमोहिनी देशकालपृथग्ध्रव्यं मन्त्रतन्त्रविजोऽग्नयः देवतायजमानश्च क्रतुर्धर्मश्च यन्मयः स एष भगवान् साक्षात् विष्णोर्योगेश्वरेश्वरः जातो यतुष्वित्यशृण् ह्यभिमूढा न विद्महे अहो वयं धन्यतमा येषां नस्तादृशी स्त्रियः भक्त्या या सा मतिर्जाता अस्माकं निश्चला हरौ नमस्तुभ्यं भगवते कृष्णाय अकुण्टमेधसे यन्माया मोहितधियो प्रमामकर्मवर्त्मसूं स वैन आद्यपुरुषस्वमायामोहितात्मनां अविज्ञातानुभावानां क्षन्तुमर्हत्यतिक्रमम् इति स्वागमनुस्मृत्य कृष्णे ते कृतहेलनाः दितृक्षवोऽप्यच्युतयो कंसाद्भीता न चाचलन् इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे यज्ञपद्युद्धरणं नाम त्रयोविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द गुरुना तमघराजके जयम्